मुद्गलपुराणं खण्डं त्रिमहोदरचरितम् अध्यायं नयन् मोहासुरज्ञानप्रधानं श्रीगणेशाय नमः रविरूवाच तदो महोदरक्रोधसमायुक्तप्रदापवान् परस्वादिस्वायुधानि दधानो प्रबभौ द्विजाः मूषकोपरि संस्थाय देवर्षिगणसंयुतः मोहासुरं निगन्तुं सययौ तन्नगरे प्रभुः यतस्मिन्नन्तरे तत्र समासीनो महासुरः मोहोदैत्यादिपैः सर्वैर्वेष्टितः प्रबभौ द्विजाः अकस्मान्नदैत्यं ययौ गानपरायणः तं दृष्ट्वा प्रणनामाधमोहसर्वसमन्वितः समासी नमः दैत्यपप्रविनयान्वितः वदचित्रं मुने किञ्चिद्भ्रमसि त्वं च सर्वगः दैत्यस्य वचनं श्रुत्वा नारदस्तमुवाचः हर्षयुक्तः कथां पुण्यां दैत्यस्य विषरूपिणीं नारद उवाच मोहासुरमहाभागशृणु मे वचनं हिदं चित्रं वदामि यत्सृष्ठं भावपूर्वेण चेदशा देवैः सम्प्रार्थितो देवो मुनिभिर्वनसंस्थितैः महोदरवधार्थाय तव दैत्यपदेऽधुना स सदेवो मूषकारूढो वधार्थं ते समागतः दशयोजनदूरस्थो बभूवा सुरचाधुना नारदस्तंस नारदस्तं स मौनभावपरायणः बभूव दैत्यराजस्तु भयोद्विघ्नस्तदा भवत mm. नियम्य दुःखमुग्रं स उवाच नारदम् पुनः मोहासुरो भयोद्विघ्नो हृदयेन विदूयता मोहासुर उवाच शृणु नारदमे वाक्यं न मृत्युर्मे प्रवर्तते नाम रूपात्मकेभ्यश्च किं करिष्यति देवपः महोदरात्मको नामरूपधारी समागतः सदेवं तं हनिष्यामि नात्रकार्या विचारणा तस्य दैत्याधिपस्यैतद्वचनं नारदो मुनिः श्रुत्व वाचमहायोगी मोहासुरं विचारतः। शृणुमोहासुरत्वमेवचनं हितकारकम् महोदरो नरो नैव न देवो न चराक्षसः नामरूपविहीनम् यद्ब्रह्मवेदेषु कथ्यते नामरूपमयम् पूर्णम् स एवायम् समागतः हनिष्यदि यदा क्रुद्धस्त्वाम् तस्माच्चरणं व्रज महोदरमहाभागं तेन त्वं सुखमेष्यसि ततस्थं दैत्यराजः स जगादभयसङ्कुलः वदनारदयोगज्ञभ्रमणाशायमे वचः नामरूपविहीनोऽयं गध्यस्य च महोदरः समागधकथं देही नामरूपसमन्वितः नामरूपमयं ब्रह्मनामरूपविवर्जितं सर्वत्र योगभावेन तिष्ठत्यत्र न संशयः स्वपरभ्रान्तिजोमोहो न कदा तत्र वर्तते दे। देवदैत्यादिभेदेषु समभावयुधं सदा अयं देवपक्षविवर्धनः दैत्यानां प्रवधार्थाय किमर्थं गुरुते मदिं विपरीतमिदं विप्रवचनं तेजसाम्प्रतं वासदे पश्य योगीन्द्रनुदमे संशयं प्रभो महोदरस्य मामन्यद्ब्रह्मर्षे वदचेष्टितं किं रूपः किं स्वभावश्च कस्यां शक् कुत्र वासकरसोऽपि कीदृशं ब्रह्म तस्य यद् सर्वं सुविस्तार्यज्ञान मे करुणानिधे भानुरुवाच एवं पृष्टो महायोगी गणपत्यप्रतापवान् मोहासुरं यथा पूर्वन्तं जगाद महासुरं नारद उवाच योगी योगिसम्मदा योगरूपं त्वया पृष्ठं तेनाकं तोषितो भृशम् अगस्त्वां सकलं दैत्य कथयामि विशेषतः शृणुष्वै गमनार्धुण्डेश्चेष्टितं योगदं परं नामरूपमयं विद्धि जगत् सर्वं चतुर्विधं नामरूपविहीनं यद्देहि रूपं जगद्धिदम् तयोर्योगे च दैत्येन्द्रबोधसर्वत्र सम्मतः ब्रह्म यद्वेदवादेषु कथ्यते विद्धिचेतसा तदेव नामरूपादियुक्तं भवति सर्वदा तदेव नामरूपादिहीनं भवति सर्वदा तद्ब्रह्मपूर्णभावेन संस्थितं योगवाचकं दैत्यपुङ्गवजानीहि तदेवासौ महोदरः देहदेहि कृतो भोगस्व स्वस्वानन्दतः परः सर्वत्र गः स उदरे भुक्तभोगश्च कथ्यते उदरेण कृतो भोगो यदि बाह्यपरायणैः तदा ते मरनायुर्युक्ता भवन्ति स्वल्पकालतः स्वस्वानन्दमयो भोगो भुज्यते सर्वभावतः सर्वा भ्रमभिरत्यन्तं जगद्भिश्चैव निश्चितं भिन्नभोगश्च विश्वस्मिन्नात्मनि ह्यमृतात्मकः एकभावमयो भोगो भोगयुक्तानुभौ मदौ देहेषु जठरं भिन्नं जठरं मदमात्मनि एकभावात्मगं दैत्यजानीहि योगसेवया यदि भोगविहीनौ तौ विश्वात्मानौ महामदे विशेषतो यत्नवन्तौ किमर्थं वै बभूवधूः नामरूपधरं विश्वं जातं भोगार्थमेव च नामरूपविहीनं यद्देही जात तदर्थतः नास्ति भोगस्य चेच्छा चेत् किमर्थं द्विविधं भवेद् ततो जानीहि दैत्येन्द्रभोगयुक्तौ विशेषतः विश्वात्मनोश्च संस्थोऽयं जठरे गणनायकः महोदराख्या संजाता तेन तस्य महात्मनः द्विविधस्य च दैत्येन्द्रजठरं स्वल्पवाचकं स्वस्वभोगपरत्वाद्वै विचारय महामदे सकलानां विशेषेणोदरेषु स तदास्तिदः महोदरश्च तेनायं कथितो वेदवादिभिः विश्वं देहमयं तस्य मस्तकं चात्मवाचकं तयोर्योगे गणेशोऽयं कथ्यते स गजाननः जायते सकलं यस्मादन्ते गच्छति यत्र च दैत्यनाय गजानीहि गजरूपं तदेव वै विश्वात्मानौ च संसृष्टौ ताभ्यां ज्ञानार्थमे वसः तपसा राधितो देवो देहधारी बभूवः न तस्य प्राकृतो देह सर्ववत् पश्यदैत्यप भुक्तिमुक्त्यर्थमेवंशस्वेच्छया देहभोगवद स्वसंवेद्येन योगेन लभ्य दे गणनायकः तदेव नगरं तस्मात् तस्य जानीहि सर्वगं सिद्धिर्भ्रान्तिप्रदामाय ततो भ्रमदि वैजनः बुद्धिर्भ्रान्तिधरा प्रोक्ता चित्तरूपाविशेषतः चित्तं पञ्चविधं प्रोक्तं तदैश्वर्यं भ्रमात्मकं त्यक्त्वा शान्तिमवाप्नोति योगीशो योगसेवया तस्मात् सिद्धेश्च बुद्धेश्च स्वामी प्रोक्तो महादरः तं भजत् स्वमहादैत्य नो चेत् त्वां सुरासुरमयं तेन सृष्टं विश्वं विशेषतः स्वस्वधर्मसमायोक्तं तेन खेलदि विक्नवः देवादैत्यविनाशार्थं यदग्ने स्म यदा, यदा प्रभो तदा दैत्याय भवति सिद्धिशसिद्धिदायकः देहधारी स्वयं भूत्वा वरदो भवति प्रभुः असुरेभ्यो न सन्देहस्थं जानीहि महोदरं दैत्यादेवविनाशार्थं यदन्ते सर्वभावतः तदा देहधरश्चायं हन्ति दैत्यान्न संशयः देवा संख्यायुधवेदे वरुदन्ते दैत्यनायक वृद्धिक्षयविहीनत्वाद् हन्दितान्न विशेषतः दैत्या अपाररूपाश्च वृद्धिक्षयययुतामताः तस्मात् तान् हन्दिवेगेन गणेशो ब्रह्मनायकः स्वस्वधर्मरधायते यदा खलु सुरासुराः तदा तिष्ठत्ययं योगरूपश्च जठरे विभुः सर्वं ते कथितं दैत्य ब्रह्मभूतोऽयमुच्यते तस्यां शायि सर्वमुत्पन्नं जगद्ब्रह्म तस्मात् शरणं गच्छ यदि जीवितुमिच्छसि भोगार्थं दैत्यराजत्वं मोक्षार्थं लालसा यदि एव नारद मुक्त्वार्दधेस्तौ नारदकरुणानिधिः गणेशगानसंयुक्तो वीणावादे प्रलालसः ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते मोहासुरज्ञानप्रधानं नाम नवमोऽध्यायः ओ